ब्रह्मन् ब्रह्मन्ना ब्रह्मन् ब्राह्मणो ब्राह्मणो ब्रह्मन् ब्रह्मन् ब्राह्मणः ब्रह्मन् ब्राह्मण ब्राह्मण ब्रह्मन् ब्रह्मन् ब्राह्मण ब्रह्म वक्षसे ब्रह्म ब्रह्मन् ब्रह्मन् ब्राह्मण ब्रह्म णो ब्रह्मवत्कसि ब्रह्मवत्कसि ब्राह्मणो ब्राह्मणो ब्रह्मवत्कसि जायताम् ब्रह्मवत्कसि ब्राह्मणो ब्राह्मणो ब्रह्मवत्कसि ब्रह्मवत्कसि जायताम् ब्रह्म वर्तसि जायता राष्ट्रे राष्ट्र आजायताम् ब्रह्म वर्तसि राष्ट्रे ब्रह्म वर्तसीति ब्रह्म राष्ट्रे राष्ट्र आरायताम् राष्ट्रे राजन्यो अराजन्यो राजाय का राष्ट्रे राजन्यः अराष्ट्रे राष्ट्रे राजन्यो राजन्यो राष्ट्रे राष्ट्रे राजन्यशोरशूरो राजन्यो राष्ट्रे राष्ट्रे राजन्यशूरः राजन्यशूरशूरो राजन्यो शोर इषं य इशं यशोर राजन्यो अराजन्यः शोर व्याधी शं य ईशं योतिम् व्याधे महारथः अतिम् व्याधि महारथो महारथोऽतिम् याज्यतिम् महारथो रायताम् जायताम् महारथोऽतिम् याज्यतिम् महारथो जायताम् अतिम् व्याधी महारथो andodhi dodhi jayatan jayatan dodhi dhenardhenaddodhi jayatan jayatan dodhi dheno dodhi dhenardhenaddodhi dodhi dodhi dhenarddho dhi anadvanadvanadvan bolha bolha anadvana asur asura nadvan bolha bolha anadvana asuh anadvana asura asura nadvana nadvana asuh sapti sapti rasura nadvana nadvana asuh sapti आशि सप्तिः सप्ति राशु राशस्सक्तिः पुरन्धिः पुरन्धिः सप्ति राश राशः सक्तिः पुरन्धिः सक्तिः पुरन्धिः पुरन्धिः सप्तिः सक्तिः पुरम् धीर्यौषा यषा पुरम् दिः सक्तिः सक्तिः पुरन् धीर्यौषाः पुरम् धर्योषा योषापुरम् धिः पुरम् धर्योषा जिष्णर्जिष्णर्योषापुरम् धिः पुरम् धर्योषा जिष्णुः पुरम् धिरि पुरम् भिः जोषा जिष्णर्जिष्णर्योषाजोषा जिष्णोरथेष्ठा रथेष्ठ जिष्णो रथेष्ठा रथेष्ठा जिष्णर्जिष्णोरथेष्ठा सभे यः सभेयो अरथेष्ठ जिष्णर्जिष्णो रथेष्ठा सभेयः रथेष्ठा सभेयः सभेयो अरथेष्ठ रथेष्ठा सभेयो युवा युवाः सभेयो अरथेष्ठ रथेष्ठा सभेयो युवाः रथे स्था इति रथे स्था सभेयो युवायुवा सभेयः सभेयो युवास्यायुवा सभेयः सभेयो युवास्या युवास्यायुवायुवास्य यजमानस्य यजमानस्यायुवायुवास्य यजमानस्य आस्या अस्य यजमानस्य यजमानस्य आसस्य यजमानस्य वीरो वीरो यजमानस्य आसस्य यजमानस्य वीरः यजमानस्य वीरो वीरो यजमानस्य यजमानस्य वीरो जायतां जायतां वीरो यजमानस्य यजमानस्य वीरो जायतां veero ja jataam ja jataam veero veero ja jataam nikame nikame nikame nikame ja jataam veero veero ja jataam nikame nikame जायतानि निकामे कामेनि कामे कामेकामेनि कामे नो नो निमेन स्पर्जन्यः पर्जन्यो नो निकामेनि कामेनि कामेनि कामेन स्पर्जन्यः कामे निकाम इति कामे निकामे नः पर्जन्यः पर्जन्या नानः पर्जन्या वर्षतु वर्षतु पर्जन्या नानः पर्जन्या वर्षतु पर्जन्यावर्षतु वर्षतु पर्जन्यः पर्जन्या वर्षद् फलवत्यः फलवत्य वरिषतु पर्जन्यः पर्जन्या वर्षद फलवत्यः वर्षत् फलवत्यः फलवत्यो वर्षतु वर्षत् फलवत्यो नो नः फलवत्यो वरिषतु वर्षत् फलवत्यो नः फलवत्यो नो नः फलवत्यः फलवत्यो न ओषधय ओषधयो नः फलवत्यः फलवत्यो न ओषधयः फलवत्य इति फलवत्यः ना औषधय औषधयोनो न औषधय पच्यन्तां पच्यं दामोषधुलोनो न औषधय पच्यन्तां औषधय पच्यन्तां पच्यन्तां औषधय औषधय पच्यन्तां योगक्षेमो योगक्षेम पच्यन्तां औषधय औषधय पच्यन्तां योगक्षेमः पच्यन्ताय योगक्षेमो योगक्षेमः पच्यन्ताम् पच्यन्ताय योगक्षेमो न योगक्षेमः पच्यन्ताम् पच्यन्तायोगक्षेमो नः योगक्षेमो नयोगक्षेम योगक्षेमो नः कल्पताम् कल्पदा न योगक्षेमो योगक्षेमो नः कल्पदाम् योगक्षेम इति योगक्षेमः नः कल्पताम् कल्पतान्नो नः कल्पताम् कल्पतामिति कल्पता आ ब्रह्मन् ब्राह्मणो ब्रह्मवत्सी धायता इषव्यो अतिव्याधिमहारथो जायता दोघ्री धेनुर्वोढा नड्मा नाशुः सप्तिः पुरन्षा जिष्णुरथेष्ठा सभेयो युवास्य यजमानस्य वीरोदायता कामेनी कामेनः पर्जन्या आवर्षत फलवत्यो न ओषधयः पच्यन्ता योगक्षेमो नः कल्पता